मुद्गलपुराणं खण्डं तु एकदन्तचरितं वसिष्ठतपोवर्णनं श्रीगणेशाय नमः मुद्गल उवाच तृणबिन्दोऽसुधा श्रेष्ठा नाम्नेलविलका स्मृता पुलस्त्यायश राजर्षिर्दधौ विनयसंयुधः तम जे फुस्या वै विश्रवा मुनिम तर पत् दुस्रस्त सु वामलोचना पुष्पोत्कैकसीवर्णि ज्येष्ठ वैश्रवण तस्ुव देवर्णि कैकस्य जनयत्पुत्रम् रावणम् लोकरावणम् कुम्भकर्णम् शूर्पणखाम् पुत्रीं तम् च बिभीषणम् रावणः प्रतापीच प्रतापी च बिभीषणः तपस्ते पुस्सु विपुलम् सहस्रदशकाब्दकम् प्रसन्नश्च ततो ब्रह्मा वरदस्तान् समाययव, रावणो वरयामास राज्यं निखतकण्टकं भूर्भुवस्वस्त्रयाणां स लोकानां बलगर्वितः सर्वेभ्यश्च मृदिं तद्वद्विस्मृतौ कपिमानुषौ कुम्भकर्णो भवद्वाण्या मोहितो वरमुत्तमम् षण्मास निद्रया युक्तं वव्रेतं वरदं प्रभुं बिभीषणस्तु धर्मात्मा स्वधर्मरुचिदं वरं वरयामास धादार्यं विष्णुभक्तिं सुभावदः ब्रह्मा दत्त्वा वरांस्तेभ्यो ययौ स्थानं निजं तदः ते रक्षप्रवराजातास्त्रिषु लोकेषु विश्रुताः जित्वा त्रिभुवनं दक्ष रावणषष्टिलक्षकं वर्षाणां मानुषाणां स राज्यं चक्रे सहानुजः रामेण सहदो दुष्टकुम्भकर्णश्च रावणः विभीषणं तदो राज्ये स्थापयामास तपस्तत्वा तपस्तप्त्वा वैश्रवणो गणेशस्य महात्मनः एपाक्षरविधानेन तोषयामास विघ्नवं दशवर्षसहस्रैस्तु प्रसन्नो भूत् गजाननः िं स्वचरणे तस्मै ददौ शङ्करमित्रताम् उत्तराशापदिं चक्रेद्धनपालाभिधं तद्धा ततो देवेषु विख्यातकुबेरप्रबभूवः पुष्पोत्कटाविश्रवसो जनयच्च महोदरं महापार्श्वं प्रहस्तं च करं कुम्भीनशीं सुदाम् राका सञ्चनयमासत्रिशिरस्कं च दूषणं विद्युज्जिह्वं महाकालं विश्रवस्तः प्रजापदे इत्येदे क्रूर कर्माणः पौलस्त्या राक्षसा दशा राक्षस महाबला मृगा व्याच्च दमश्रिण पिशाचा बहवो भूदाश हस्तिन था अनपथ्यक्रदुश्चात्र स्मृद वाद मरीजे कश्यपुत्र स जादो वै प्रजापति भृगो पुत्रस्तु मेधावी दैत्याचार्यो महायश स्वाध्यायन प्रजापदे बभूवेश मार्गरदो भूत्वा सदा शंकरपूजक कैलासम प्राप्शान्थम बोध हरेण च शान्तियोगस्य सिद्ध्यार्थं गणेशमभजत्कविः क्रमेण शान्तिमापन्नो गणपत्यो बभूवसः अत्रे पुत्रो भवत् मृतरूपमयो महान् अरुन्धत्यां वसिष्ठाद्वै शक्रिपुत्रो बभूवः तस्मात् पराशरसाक्षात्तपो निधिरजायत शङ्करस्य सदा भक्तिं चकार परमादराद वसिष्ठं योगशास्त्रज्ञं पितामहमनिन्दिदं स्वकर्मकुशलं तवे पराशर उवाच शिवोऽयं मोहीनश्च नेधि करुताव्ययस्मृतः कथं ब्रह्मणि निर्मोहे भवेन्मोहो भ्रमपदः मुद्गल उवाच पराशरवच श्रुत्वा वसिष्ठस्तमुवाच हर्षयुक्तः स्वपौत्राय शान्तियोगं सनातनं वसिष्ठ उवाच पुत्र प्रवक्ष्यामि ब्रह्मणा कथितं च मे योगं शान्तिकरं तुभ्यं कथयामि विशेषतः अकं शान्त्यर्थमत्यन्तं भ्रमितो न लभे च तां गतो लोके प्रविख्यादे ब्रह्मणः परमेष्ठिनः तत्र सम्पूजयन्तं वै ब्रह्माणं दृष्टवानहम् गणेशमूर्तिं वैपुत्रसंस्थितोऽहं प्रणम्यतां पूजाविधिं समाप्यासौ सभायां समुपागतः तत्राहं विनदो भूत्वा ह्यवतं तं महाद्युतिं त्वत्तः सर्वाणि भूतानि जायन्ते नात्र त्वयि नाथप्रलीयन्ते परं न विद्यते त्वया सौ पूजितकस्मात् कश्रेष्ठो वदसां प्रथं बहुवर्षमहं भ्रान्दो नालभे शान्तिमुत्तमां मदीयवचनं श्रुत्वा ब्रह्मा हर्षसमन्वितः जगाद मां पात्रं दृष्ट्वा पितामहः ब्रह्मोवाच शृणुपुत्रमहाभागगणेशो योगशान्दिदः अस्माकं कुलदेवश्च सर्वेषां सोऽपि निश्चितं तस्माद्वयं समुत्पन्नास्तेन संस्थापितास्पदे सर्वसिद्धिप्रदातारं तं भजामि निरन्तरम् अन्ते तत्रैव लीनाश्च वयं पुत्र न संशयः तस्मादादौ गणेशान् पूज्यो माता पिता स्मृतः ज्येष्ठराजपदं पश्य वेदेषु कथितं सुधा तस्माज्ज्येष्ठो न वेदेष्वादिस्सर्वेभ्यो गणेश्वरः य आदिस्स भवेदन्ते कथितं शास्त्रसम्मतम् अतस्तत्र लीना भविष्यामो न संशयः मध्येनाविधस्सोऽपि कलांशेन गजाननः प्रक्रीडति कलांशाश्च वयं तस्य स्मृतास्सुता शान्तिमिच्छसि चेत्पुत्रतां वदामि समासदः पञ्चधा चित्तवृत्तिं त्वं त्यक्त्वा श्रान्दो भविष्यसि क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकं चिन्ताम्मणि समाख्यादस्तेन चित्तं प्रकाशितम् अहं गणेशरूपश्चेत् संयोगा योगताचमे च मे नास्ति ह्यतो भिन्नभावस्तेन भ्रान्तिर्गदा भवेद् जगत् सुब्रह्म सुप्रोक्तमैश्वर्यमतुलं बुधैः जानीहि सिद्धिरूपं त्वं भ्रान्तिदायकमञ्जसा जगद्ब्रह्म बुद्धिशास्त्रेषु कथ्यते पञ्चधासा समाख्यादा चित्तरूपा तयो प्रकाशकं बिम्बं गणेशस्य महात्मनः मोहितं पश्य तदाकारं हृदि स्थितं बिम्बभावं त्यजत्वं वै तदा शान्तिं गमिष्यसि चित्तमैश्वर्यमोहश्च बिम्बं नैव प्रदृश्यते एवमुक्त्वा स्वयं मांस विररामपितामहः अहं प्रणम्य तं देवं प्रादक्षिण्येन निर्गतः गत्वावनन्तरं पुत्र अतपं तप उत्तमम् एकाक्षरेण मन्द्रेण ध्यात्वा जपपरायणः क्रमेण योगभूमिनां भ्रान्तिं त्यक्त्वा महामुने चिन्तामणि स्वयं साक्षादभवं शान्तियोगधृक तथापि गणराजस्य मन्त्रध्यानम् महात्मनः दर्शनार्थं तपश्चोग्रमकार्षं च हितावहं पूर्णे वर्षसदेवै मां व्ययौ देवो गजाननः योगशान्तिस्वरूपधृक ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते वसिष्ठतपोवर्णनं नाम एकोनत्रिंशोऽध्यायः ॐ